गर्गसंहिता खण्डं तु वृन्दावनखण्डम् अध्यायम् एय् श्रीनारद उवाच एकदासबलकृष्णश्चरय गा मनोहराः गोपालैसहितसर्वैर्ययौतालवनं नवं धेनुकस्य भयाद्गोपा न गदास्ते वनान्तरम् कृष्णोऽपि न गदस्तत्र बल एवो विवेशः बद्धा बलदेवो महाबलः परिपक्वफलार्थं हि तद्वने पि बाहुभ्यां कम्पयं स्थालान् ढलसङ्घम् निपातयन् गर्जंश्च निर्भयसाक्षादनन्दोनन्दविक्रमः बलानां पददां शब्दं श्रुत्वा क्रोध वृधकरः मध्याह्ने स्वाप हृद्दुष्टो भीमः कंसखो बली आययौ सम्मुखे योद्धुं बलदेवस्य धेनुकः बलं पश्चिमपादाभ्यां निहत्यो रसि सत्वरं चकारकरशब्दं स्वं परिधावन्मुहुर्मुहुः गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः शिक्षेप तालवृक्षे च हस्तेनैकेन ना लीलया तेन भग्नश्च तालोऽपि तालान् पार्श्वस्थितान् बहून् पादयामास राजेन्द्र तदद्भुतमिवा भवत पुनरुद्धाय दैत्येन्द्रो बलं जग्राहरोषधः योजनम् नोदयामास गजं प्रति गजो यथा गृहीत्वा कम्बलसद्यो भ्रामयित्वा धेनुकम् भू पृष्टे पोधयामास भग्नमस्तकः क्षणेन पुनरुद्धाय क्रोधसंयुक्तविग्रहः मूर्ध्नि कृत्वा चतुशृङ्गम् धृत्वा रूपम् भयङ्करम् गोपान् विद्रावयामास शृङ्गैः तीक्ष्णैर्भयं करैः अग्रे पलायितान् गोपान् दुद्रा वाशु मदोत्कडः श्रीदामा तं च दण्डेन सुबलो मुष्टिना तथा स्तोघपाशेन दैत्यम् सन्तताडमहाबलम् क्षेपणेनार्जुनो शुश्च दैत्यं लक्तिकयाकरम् विशालर्षभयत्याशुपादेन स्वबलेन च त्यजस्वी ह्यर्धचन्द्रेण देवप्रस्थश्च पेटकैः सन्तताडमहाकरम् अथ कृष्णोऽपि तं नीत्वा हस्ताभ्यां धेनुकासुरं श्रीकृष्णस्य प्रहारेण मूर्च्छिदो घटिकाद्वयं पुनरुद्धायस्वतनुं विधुन्वन्दारयन् मुखम् शृङ्गाभ्याम् श्रीहरिं नीत्वा धावम् दैत्यो न भोगतः चचारतनखे युद्धमूर्ध्वम् वै लक्षयो जनं। गृहीत्वा धेनुकम् दैत्यम् श्रीकृष्णो भगवान् स्वयम् चिक्षेपाधो मध्ये चूर्णितास्ति समूर्छिदः पुनरुद्धाय शृङ्गाभ्याम् नादम् कृत्वादिभैरवम् गोवर्धनम् समुत्पाट्य श्रीकृष्णे प्राहिणात्करः गिरिं गृहीत्वा श्रीकृष्णः णाक्षिपत्त स्यमस्तके दैत्यो गिरिं गृहीत्वा तश्रीकृष्णे प्राहिणोद्बली कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपद पुनर्धावन्महादैत्यशृङ्गाभ्यां धारयन् भुवं बलं पश्चिमपादाभ्यां ताडयित्वा जगर्जः ननादते न ना प्रैजद्भूखण्डमण्डलम् अस्ताभ्याम् सङ्गृहीत्वा तम् बलदेवो महाबलः भूपृष्ठे बोधयामासमूर्छितम् भग्नमस्तकम् पुनस्तताडतम् दैत्यम् मुष्टिना ह्यच्युदाग्रजः तेन मुष्टि सद्यो गदः वै निधनं गतः तदैव वभृषुर्देवाः पुष्पैर्नन्दनसम्भवैः देहाद्विनिर्गदसोऽपि श्यामसुन्दरविग्रहः स्रग्वीपीताम्बरो देवो वनमाला विभूषितः लक्षपार्षदसंयुक्तसहस्रध्वजशोभितः सहस्रचक्रध्वनि वृद्धयायुधसमन्वितः लक्षचामरशोभाढ्यो रुणवर्णोदिरत्नभृद दिव्ययो जनविस्तीर्णो मनो यायी मनोहरः किङ्गिणीजालसंयुक्तो कडामञ्जीरसंयुधः हरिम् प्रदक्षिणीकृत्य सबलं दिव्यरूपदृक दिव्यं रथं समारुह्य द्योदयन् मण्डलम् हे राजन् गोलोकं प्रकृतेः परं श्रीकृष्णो धेनोकं हत्वा सबलो बालकै सह तद्यजस्तु प्रगायद्भिर्बभौ गोकुलगोगणैः राजोवाच मुने मुक्तिं कथं प्राप्तः पूर्वं को धेनुकासुरः कथं करत्वमापन्नयेदन्मे ब्रूहितत्वदा श्रीनारद उवाच वैरोच निर्बले पुत्रो नाम्ना साहसि को बलि नारीणां दशसहस्राय रेमे वै गन्धमादने पादित्राणां शब्दो शब्दोऽभूतद्वने महान् गुहायामस्ति तस्यापि श्रीकृष्णं स्मरतो मुनेः दुर्वासशोभतेनापि ध्यानभङ्गो बभूवः निर्गधपादकारूढो दुर्वासा कृशविग्रहः दीर्घश्मश्रोर्यष्टिधरक्रोध धरक्रोध न लद्युदिः यस्य शापाद्विश्वमिदं कम्पदे स जगादः दुर्वासा उवाच उत्तिष्ठ गर्दभाकारगर्दभो भवदुर्मदे वर्षाणां तु च दुर्लक्षं व्यतीते भारते पुनः माधुरे मण्डले दिव्ये पुण्ये तालवने वने बलदेवस्य हस्तेनमुक्तिस्ते भविता सुरा श्रीनारद उवाच तस्माद् बलस्य हस्तेन श्रीकृष्णस्तं जघानः प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नामाष्टमोऽध्यायः ओ अध्यायं नैन् ब्रह्मणः ब्रह्मो वाचा ब्रह्मोवाच कृष्णायमेघवपुषे चपलाम्बराय पीयूषमिष्टवचनाय परात्पराय वंशीधराय शिखिचन्द्रिकयान्विताय देवायभ्रातृसहिताय नमोऽस्तु तस्मै कृष्णस्तु साक्षात् पुरुषोत्तमस्वयं पूर्णपरेश प्रकृते परो हरिः यस्यावतारांशकला वयं सुरा सृजाम विश्वं क्रमतोस्य शक्तिभिः स त्वं साक्षात् कृष्णचन्द्रावतारो नन्दस्यापि पुत्रदामागधौ वृन्दारण्ये गोपवेशेन वत्सान् गोपैर्मुख्यै शारयन्भ्राजसेवै हरिं कोडिकन्दर्पलीलाभिरामं स्फुरत् कौस्तुभंश्यामलं पीतवस्त्रं व्रजेश्यं तु वंशीधरं राधिकेश्यं परं सुन्दरं तं निकुञ्जे नमामि तं कृष्णं भज हरिमादिदेवमस्मिन् क्षेत्रज्ञं कमिव विलिप्तमेकमेव स्वच्छाङ्गं परमधियाज्ञचैत्यरूपं भक्त्याद्यैर्विशदविरागभावसङ्घैः यावन्मनश्च रजसा विद्वन् सङ्कल्पये वदु विकल्पक येव तावद ताभ्याम् योगस्तेनापि बुद्धि बुद्धिविकृतिम् क्रमथप्रयान्ति विद्युद्युदिस्त्वर्थो गुणो जलमध्यरेखा भूतोल्मुखकपटपान्धरधिर्यथा च युद्धं तथास्य जगतस्तु सुखं मृषेदि दुःखावृतं विषय कूर्णमलादचक्रं वृक्षाजलेन चलतापि चलायि वात्र नेत्रेण भूरिचलितेन चलेव भूश्च एवं गुणप्रकृतिजैर्भ्रमतो जनस्थं सत्यं वदेद्गुणसुखादितमेव कृष्ण दुःखं सुखञ्च मनस्सा प्रभवञ्च सुप्ते मिथ्या भवेत् पुनरको भुवि जागरेष्य युद्धं विवेककटितस्य जनस्य सर्वं स्वप्नभ्रमाधृत जगत् सततं भवेद्धि ज्ञानी विसृज्य ममतामभिमानयोगं वैराग्यभावरसिक सततं निरीहः दीपेन दीपकशतं च यथा प्रजातम् पश्येत्तथात्मविभवं भुवि चैकतत्त्वम् भक्तो भजे हृदि वासुदेवम् निर्धूम वक्निरिवमुक्तगुणस्वभावः पश्यन् घटेषु सजलेषु यथेन्दुमेकं यदादृश्यपरमहंसवरकृतार्थः ेदः सततञ्जयं सदा हरेर्महीं न किल षोडशीं कलां कदापि जानन्ति नते ते त्रिलोके वक्तुं गुणांस्तस्य जनोऽस्ति करः वक्त्रैश्च दुर्भिस्त्वहमेव देवः श्री किल पञ्चवक्त्रैः सहस्रशीर्षास्तु सहस्र वक्त्रैः यस्तौदि सेवां कुरुते च तस्य विष्णुश्च वैकुण्ठनिवासकृच्च क्षीरोदवासी हरिरेव साक्षात् नारायणो धर्मसुधस्तथापि गोलोकनाथं भजदे भवन्तम् अहो दिधन्यो महिमा मुरारेर्जानन्ति भूमौ मुनयो न मानवाः सुरासुरा वा मनवो बुधाः पुनः स्वप्नेऽभिः पश्यन्ति वरं हरिं गुणाकरं सुमुक्विदं परात्परम् रमेश्वरं गुणेश्वरं व्रजेश्वरं नमाम्यहं ताम्बूलसुन्दरमुकं मधुरं ब्रुवन्दं बिम्बादरं स्मिदयुधं स्थितकुन्ददन्तं मीलालकवृदकपोलमनोहराभं वन्दे चलत्कनकुण्डलमण्डनार्हं सुन्दरं तु तव रूपमेव हि मन्मथस्य मनस्सो हरं परम् आविरस्तु मम नेत्रयोः सदा श्यामलम् मकरकुण्डलावृतं वैकुण्डलीलाप्रवरं मनोहरम् नमस्कृतं देवगणैः परं वरम् गोपालीलाभियुदम् भजाम्यहम् गोलोकनाथं शिरसा नमाम्यहम् युक्तं वसन्तकलकण्डविसङ्गमैश्च सौगन्धिकं त्वरणपल्लवशाखिसङ्गम् वृन्दावनम् सुधितधीर समीरलीलं गच्छन् पादु सदैव भक्तान् हरति कमलमानं लोलमुक्ताभिमानं धरणिरसिकदानं कामदेवस्य बाणम् श्रवणविदिदयानं नेत्रयुग्मप्रयाणम् भजयदुदसमक्षम् दानदक्षम् कडाक्षम् शरश्चन्द्राकारं नखमणिसमूहम् सुखकरम् सुरकृतम् हृत्पूर्णम् प्रकटिततमः खण्डनपरम् भजेहम् ब्रह्माण्डे सकलनरपाभिदलनम् हरेर्विष्णोर् देवैर्दिविभरदखण्डे स्तुतमलम् महापद्मे किं वा परिधिरिव चाभाधिसदम् कदा वित्यसफोर्जद्रथचरणयुद्धम् ध्वनिधरः यद्धान्यस्तञ्चक्रम् शतकिरणयुक्तम् तु हरिणा स्फुरच्छ्रीमञ्जीरम् हरिचरणपत्मे स्वधिगतम् कट्याम् पीताम्बरं दिव्यं क्षुद्रखण्डिकयान्वितम् भजाम्यहम् चित्तहरम् कृष्णस्याक्लिष्टकर्मणः भजे कृष्णक्रोडे भृगुमुनिपदं श्रीगृहमलं तथा श्रीवत्सङ्गम् निकषरुचियोक्तम् ले हीराहारान् कनकमणिमुक्तावलिधरान् सुरताराकारान् भ्रमरवलिभारान् ध्वनिकरान् वंशी विभूषितमलं द्विजदानशीलं सिन्ध्रूरवर्णमदिकीजकरावलीलम् ेमाङ्गुलीयनिकरं नखचन्द्रयुक्तम् अस्तद्वयम् स्मर कदम्बसुगन्धपृक्दम् शनैश्चलन्मानसराजहंसग्रीवाकृतौ उच्चदेशे कादम्बिनीमानहरौ कलदर्पणवद्विशदं सुखदं नवयववनरूपधरं नृपदिं मणिकुण्डलकुन्दलशालिरतिं भजगण्डयुगं रविचन्द्ररुचिम् खजितकनकमुक्ता रक्तवैदुर्यवासं मदन वदनलीला अरुणविधुसकाशं कोडिसूर्यप्रकाशं खडिदशिखि सुवीडं नौमि विष्णो किरीडं यद्वारिदेशेन गदिर्गुहेन्द्र गणेश तारिरेश दिवाकराणाम् आज्ञां विना यां दिनकुञ्जमण्डलं तं कृष्णचन्द्रं जगदीश्वरं भजे इति कृत्वा स्तुतिम् श्री श्रीकृष्णस्य महात्मनः पुनः कृताञ्जलिर्भूत्वा स्वविज्ञप्तिम् चकारः अपराधम् दुपुत्रस्य मातृवत्त्वम् क्षमस्व च अहम् त्वन्नाभिकमलात् जगत्पदे काकम् लोकपदि क्वत्वम् तस्माद्व्रजपदे देवरक्षमां मधुसूदन मायया यस्य मुख्यन्दि देवदैत्यनरादयः स्वमायया तन्मोहाय मूर्खोऽहं शुध्यतो भवन् नारायणस्त्वं गोविन्दनाहं नारायणो हरे ब्रह्माण्डं त्वं विनिर्माय शेषे नारायणपुरा ना यस्य श्रीब्रह्मणि धाम्नि प्राणं त्यक्त्वा दु योगिनः यत्र यास्यन्ति तस्मिंस्तु सकुलापूदनागता वत्सानां वत्सपानां वस्चा च कृत्वा रूपाणि माधव विचचारवने त्वं मम प्रभो तस्मात् क्षमस्व गोविन्दप्रसीदत्वं ममोपरि अगणय्यापराधं मे सुतोपरिपिता यथा त्वदभक्तारदा ज्ञाने तेषां क्लेशो विशिष्यते परिश्रमात्कर्षकाणां यथा क्षेत्रे तु सार्थिनाम् निरदा बहवस्त्वद्गतिं गताः योगिनो मुनयश्चैव तथा ये व्रजवासिनः द्विधारदिर्भवेद्वराश्रुताश्च दर्शनाश्च वा अहोहरे दुमायया बभूव नैव मे रदिः युत्युक्त्वाश्रुमुखो भूत्वा नत्वा तत्पादपं गजौ पुनराकविधिकृष्णं भक्रिया सर्वं क्षमापयन् कोशेषु सिनामेषाम् भूत्वात्पदम् भुजम् यदा भजेयम् सुगदिस्तदा भूयान्न चान्यथा वयम् तु कोपदेहेषु संस्थिताश्च शिवादयः सकृत्कृष्णम् तु पश्यन्तस्तस्माद्धन्याश्च भारते अहो भाग्यम् तु कृष्णस्य मातापित्रोस्तव प्रभो तथा च गोपगोपिनपूर्णस्त्वं दृश्य सेव्रजे मुक्ताकारः सर्वविश्वोपकारः सर्वभारः पादुमां विश्वकारः लीलागारं सूरिकन्या विहारक्रीडा पारकृष्णचन्द्रावतारः श्रीकृष्णवृष्णिकुलपुष्करनन्दपुत्रराधापदे मदनमोहन देवदेव सम्मोहितं व्रजपदे भुविते जया मां गोविन्दगोकुलपदे परिपाहि पाहि करोधियकृष्णहरे प्रदक्षिणा भवे जगत्तीर्थफलं च तस्य तु ते कृष्णलोकं सुखदं परात्परम् कोलोकलोकं प्रवरं गमिष्यदि श्रीनारद उवाच इत्यभिष्टूय गोविन्दं श्रीमद्वृन्दावनेश्वरं नत्वा त्रिवारं लोकेशकार प्रदक्षिणं तत्र चालक्षितो भूत्वा नेत्रेणाज्ञां ददौ पुनः प्रणम्य स्वं लोकमात्मा भूप्रत्यपद्यत अध कृष्णो वनाशीघ्रमानयामास वत्सकान् यत्रा विपुलिने राजन् गोपानां राजमण्डली गोपार्भकाच्च श्रीकृष्णं वत्सै सार्धं समागतं क्षणार्धमेनिरे कृष्ण माया विमोहिता त उजुर्वत्सखै कृष्णत्वरं त्वं तु समागतः कुरुष्व भोजनं प्रभो ततश्च विहसन् कृष्णोऽभ्यवहृत्यार्भकैः सह दर्शयामास सर्वेभ्यश्चर्म जगरमेवज सायंकाले स रामस्तु कृष्णो गोभैपरावृदः अग्रे कृत्वा वत्सवृन्दं ह्या जगाम शनैर्व्रजं गो वत्सकैषितसितासितपीदवर्णै रक्तादिधूम्र हरितैर्बहुशीलरूपैः गोपालमण्डलगदं व्रजपालपुत्रं वन्दे वनसुखदगोष्टकमा व्रजन्तम् आनन्दो गोपिकानां दुह्यासीत् कृष्णस्य दर्शने या सां येन विना राजन्क्षणो युगसमो भवद कृत्वा गोष्टे पृथग्वसान् बाला स्वं स्वं गृहं गदाः जगुश्चाखासुरवधमात्मनो रक्षणं हरे श्री दिर्नाम इति श्रीगर्गसंहितायां 10. श्री ओम् टेन् श्रीकृष्णगोचारणवर्णनम् श्रीनारद उवाच गोपे चया रामकृष्णौ गोपालौ तौ बभूवधुः गाश्चारयन्तौ गोपालैः वयस्यैश्चेरतुर्वने अग्रे पृष्ठे तदा गावश्चरन्ध्यपार्श्वयोर्द्वयोः श्रीकृष्णस्य बलस्यापि पश्यन्त्य सुन्दरम् मुखम् खण्डामञ्जीरच्छङ्कारं कुर्वन्त्यस्तायितस्ततः किङ्गिणीजालसंयुक्ता क्षेममाला लस्सद्गलाः मुक्ता गुच्छैर्बर्हिपिच्छैर्लस्सत्पुच्छाच्छ केसराः स्फुरदां नवरत्ना मालाजालैर्विराजिताः शृङ्गयोरन्तरे राजन् शिरोमणि मनोहराः हेमरश्मिप्रभा स्फूर्जच्छृङ्गपार्श्वप्रवेष्टनाः आरक्ततिलकाके जित्पीदपुच्चारुणाङ्घ्रयः कैलासगिरिसङ्गाश्याशीलरूपमहागुणाः सवत्सामन्दगामिन्य ऊधो भारेण मैथिल कुण्डोऽध्यन्यपाडल काश्चित् लक्षन्ध्यो भव्यमूर्तयः काश्चित् पीता विचित्राश्च श्यामाश्च हरिदास्तथा ताम्राधूम्राघनश्याम घनश्यामे गदेक्षणाः लघुशृङ्ग्यो दीर्घशृङ्ग्य उच्चशृङ्ग्यो वृषै सह मृगशृङ्ग्यो वक्रशृङ्ग्यकपि मङ्गलायनाः साद्वलङ्गोमलं कान्दं वीक्षन्ध्योऽपि वने वने कोडिशकोडिशो गावश्चरन्ध्यकृष्णपार्श्वयोः पुण्यं श्रीयं मुनातीरं तमालैश्यामलैर्वनं नीपैर्निम्भै कदम्बैश्च प्रवालैः पनसैर्ध्रुमैः कदली कोविदाराम्रैजम्बुबिल्वैर्मनोहरैः अश्वद्ैश्च कपिद्धैश्च माधवीभिश्च मण्डितं बभौ वृन्दावनं दिव्यं वसन्तर्तु मनोहरं नन्दनं सर्वतो भद्रं क्षिपचैत्ररथं वनं यत्र गोवर्धनो नाम सुनिर्चरदरीयुदः रत्नधातुमय श्रीमान् मन्दारवन सङ्कुलः श्रीखण्डबदरीरम्भादेवदारुवडैर्व्रदः पला शप्लक्षा शोकैश्चरिष्टार्जुनकदम्बकैः पारिजातैपाडलैश्च चम्पकैः परिशोभितः करञ्जजालकुञ्जाढ्यश्यामैरिन्द्रियवैर्वृदः कलखण्डैकोकिलैश्च पुंस्कोकिलमयूरभृद चारयन् तत्र कृष्णो विचचारवने वने वृन्दावने मधुवने पार्श्वे तालवनस्य च कुमुद्वने बहुले च दिव्यकामवने परे बृहत्सानुगिरे पार्श्वे गिरेर्नन्दीश्वरस्य च सुन्दरे कोकिलवने कोकिलध्वनिसङ्गुले रम्ये कुशवने सौम्ये लताजालसमन्विते महापुण्ये भद्रवने भाण्डीरोपवने नृप लोहार्गले जयमुना तीरे, तीरे वने वने, वने पीद वासपरिहरो नडवेषो मनोहरः वेत्रभृद्वादयन्वंशीम् गोपीनां प्रीतिमावहन् मयूरपिच्चभृन्मौलीसृग्वीकृष्णो बभौ नृप अग्रे कृत्वा गवां वृन्दं सायं काले हरिस्वयं रागै समीरयन् वंशीं श्रीनन्दव्रजमाविशद वेणुवंशीध्वनिं श्रुत्वा श्रीवंशीवडमार्गतः गोरजोभिर्नभो व्याप्तम् वीक्ष्य गेहाद्विनिर्गताः दूरीकर्तुम् श्याधिबाधामाहर्तुम् सुखमुत्तमम् न सामर्थास्तम् द्रष्टुम् गोप्यः समाययुः सङ्गोजविधिषु न सङ्गृही सिंहावलोको गजमाललीलैर्वधूजनैः पङ्कजपत्रनेत्रः सुमण्डितं मैथिलगोरजोभिर्नीलं परं कुन्दलमादधानः हे माङ्गदी मौलिविराजमान आकर्णवक्रीकृतदृष्टिबाणः गोधूलिभिर्मण्डित कुन्दहारः कर्णोपरिस्फूर्जितकर्णिकारः पिदाम्बरो वेणुनिनादकारः पादुप्रभुर्वो पा पादु हृदभूरिभारः इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे श्रीकृष्णगोचारणवर्णनम् नाम दशमोऽध्यायः ओम् अध्यायम् इलेवन् धेनुकासुरमोक्षः श्रीनारद उवाच ये पदा सबलकृष्णश्चारयन् गा मनोहराः गोपालै सहित सर्वैर्ययौतालवनं नवं धेनुकस्य भया गोपा न गदास्ते कृष्णोऽपि गदस्तत्र गदत्तत्र बलयेगो विवेशः नीलाम्बरं कटौ बद्ध्वा बलदेवो महाबलः परिपक्वफलार्थं हितद्वने विचचारः बाहुभ्यां कम्पयन्तालान् फलसङ्घम् निपातयन् गर्जंश्च निर्भयः साक्षादनन्दो नन्दविक्रमः फलानां पददां शब्दं श्रुत्वा क्रोधा वृद्धरः मध्याह्ने स्वाप कृद्दुष्टोऽभिमखं ससखो बली आय्यौ सम्मुखे योद्धुम् बलदेवस्य धेनुकः बलं पश्चिमपादाभ्यां निषेत् निखत्यो रसि सत्वरं चकारखरशब्दं स्वं परिधावन् मुहुर्मुहुः गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः शिक्षेपतालवृक्षे च हस्ते नैकेन तेन भग्नश्च तालोऽपि तालान् पार्श्वस्थितान् बहून् पादयामास राजेन्द्र तदद्भुतमिवा पुनरुद्धाय दैत्येन्द्रो बलं रोषदः योजनं नोदयामस गजं प्रति गजो यथा गृहीत्वा दम्बलसद्यो भ्रामयित्वा दधेनोकं भूपृष्टे प्रोधयामस मूर्झिदो भग्नमस्तकः क्षणेन पुनरुद्धाय क्रोधसंयुक्तविग्रहः मूर्ध्नि कृत्वा चतुशृङ्गम् धृत्वा रूपम् भयङ्करम् गोपान् विद्रावयामास शृङ्गैस्तीक्ष्णैर्भयङ्करैः अग्रे पलायितान् गोपान् दुद्रावाशु मदोत्कटः श्रीदामा तं दण्डेन सुबलो मुष्टिना तथा स्तोकपाशेन तं दैत्यम् स तताड महाबलम् क्षेपणेनार्जुनोंशुश्च दैत्यं लत्तिकयाकरम् विशालर्षभयेत्याशुपादेन स्वबलेन च तेजस्वी ह्यर्धचन्द्रेण देवप्रस्थश्च पेटकैः वरुधपः कन्दुकेन सन्तताडमहाकरम् थ कृष्णोऽपितम् नीत्वा हस्ताभ्याम् धेनुकासुरम् भ्रामयित्वाशु चोक्षेप गिरिगोवर्धनोपरि श्रीकृष्णस्य प्रहारेण मूर्च्छितो कडिकाद्वयम् पुनरुद्धाय स्वतुनुम् विधुन्वन् धारयन्मुखम् शृङ्गाभ्याम् नीत्वा धावन् दैत्यो न चकारते न के युद्धमूर्ध्वम् वै लक्षयोजनम् कृषीत्वा धेनुकम् दैत्यम् श्रीकृष्णो भगवान् स्वयं चिक्षे पाधो भूमिमध्ये चूर्णितास्ति स मूर्च्छिदः पुनरुद्धाय शृङ्गाभ्याम् नादम् कृत्वादिभैरवम् गोवर्धनं समुत्पाट्य श्रीकृष्णे प्राणितोद्धरः गिरिं गृहीत्वा श्रीकृष्णप्राक्षिपतस्य मस्तके देत्यो गिरिं गृहीत्वा धश्रीकृष्णे प्राहिणोद्बलि कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपद पुनर्धावन्महादैत्यशृङ्गाभ्यां धारयन् भुवम् बलं पश्चिमपादाभ्यां ताडयित्वा जगर्जः ननादत्तेन ब्रह्माण्डं प्रैजद्धू खण्डमण्डलम् अस्ताभ्यां सङ्गृहीत्वा दं बलदेवो महाबलः भूपृष्ठे बोधयाम समूर्छिदं भग्नमस्तकं पुनस्तदा दैत्यं मुष्टिना ह्यच्युताग्रजः तेन मुष्टिप्रहारेण सद्यो वै गदः तदेव ववृषुर्देवा पुष्पैर्नन्दनसम्भवैः देहाद्विनिर्गतसोभिश्याम सुन्दरविग्रहः स्रग्वी भीताम्बरो देवो वनमाला विभूषितः लक्षपार्षदसंयुक्तसहस्रध्वज शोभितः सहस्रचक्रध्वनि वृद्धा यायुतसमन्वितः लक्षचामरशोभाढ्योरुण वर्णोदिरत्नभृद दिव्ययोजनविस्तीर्णो मनो यायी मनोहरः किङ्गिणीजालसंयुक्तो खण्डामञ्जीरसंयुधः हरिं प्रदक्षिणीकृत्य सबलं दिव्यरूपदृक दिव्यं रथं समारुह्य द्यो दयन्मण्डलं दिशं जगामदैत्यो हे राजन् गोलोकं कम्प्रकृते परम् श्रीकृष्णो धेनुकं हत्वा सबलो बालकैः सह तद्यस्य स्तु प्रगायद्भिर्बभौ गोकुलगोगणैः राजोवाच मुनेमुक्त्रिं कथं प्राप्तपूर्वं को धेनुकासुरः कथं करत्वमापन्नयदन्मे ब्रूहितत्वदः श्रीनारद उवाच वैरोचनेर वैरोचनेर्बले पुत्रो नाम्ना साहसिको बली नारीणां दश साहस्राय रेमे वै गन्धमादने वादित्राणां नूपुराणां शब्दोऽभू तद्वने महान् गुहायामास्ति तस्यापि श्रीकृष्णं स्मरतो मुनेः दुर्वास शोधतेन विध्यानभङ्गो बभूवः निर्गतपादुकारूढो दुर्वासा कृशविग्रहः दीर्घश्मश्रुर्यष्टिधरक्रोधपुञ्जानलद्युदिः यस्य शापाद्विश्वमिदं कम्पते स जगादः दुर्वासा, दुर्वासा उवाच गर्दभाकार गर्दभो भवदुर्मदे वर्षाणां तु च दुर्लक्षं यती भारते पुनः माधुरे मण्डले दिव्ये पुण्येतालवने वने, वने बलदेवस्य हस्तेन मुक्तिस्ते भविदा नारद उवाच तस्माद्बलस्य हस्तेन श्रीकृष्णस्तं जखानः प्रह्लादायवरोधत्तो नवभ्यो मे तवान्वयः श्री इति श्रीगर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नाम एकादशोऽध्यायः ओम् अध्यायं ट्वेल् काल्यमर्दनं तथा दावाग्निपानम् बल विनाथ गोपाल हरिस्वय काीकूल आगत ययौ वारिविषावृत कालिएन भणींद्रेण जलम यदूषित पीवा निपेदुर्वसवो गो गोपाल जलाके तदा ताञ्जीवयामसदृष्ट्या पीयुषपूर्णया आर्द्रचित्तो हरिसाक्षात् भगवान् वृजिनार्दनः कटौ पीतपटं बद्ध्वा नीपमारुह्य माधवः पपातोत्तुङ्गविडपतत्तो ये विषदूषिते उच्चचालजलं दुष्टं कृष्ण संखादकुर्निदं तत्सप्प मन्दिरे नद्यां भृङ्गीभूतं बभूवः तदैव काली अक्रुद्धफणी फणशदावृदः दशन्दै दशन् दन्तैश्च भुजया चचाद नृपमाधवम् कृष्णोदीर्घं वभु कृत्वा बन्धनान्निर्गदश्च तं पुच्छे गृहीत्वा सर्पेन्द्रं भ्रामयित्वा त्वितस्ततः जले निपात्यहस्ताभ्यां चिक्षेपाशु धनुष्यतं पुनरुद्धाय सर्पेंद्रो लेलिहानो भयङ्करः वामहस्ते हरिं सर्पो लुषा जग्राहमाधवम् हरिर्दक्षिणहस्तेन गृहीत्वा तं महाकलं तज्जले तोधयामास सुपर्णयिव पन्नं सर्पोमुखशतं दीर्घं प्रसार्य पुनरागतः पुचे गृहीत्वा तं कृष्णचकर्षाशु धनुशतम् कृष्ण हस्ताद्विनिष्क्रम्य सर्पस्थं व्यदश्यत् पुनः तदा मुष्टिना सर्पं त्रैलोक्यबलधारकः कृष्णमुष्टिप्रहारेण मूर्झितो विगतस्मृतिः नदं कृत्वा ननशतं स्थितो भूत्कृष्णसम्मुखे आरुह्य तद्भणिषदमणि वृन्दमनोहरम् ननर्त ननर्तनडवत्कृष्णो नडवेषो मनोहरः गायन् सप्तस्वरैरागं सङ्गीतं च सतालकं पुष्पैर्देवेषु वर्षत्सु ताण्डवे नडराजवद वादयन् समुदवीणानकदुन्दुभिवेणुकान् सतालं वद विन्यासैस्तद्धनां सोज्ज्वलान् बहून् बभं च स्वसधकृष्णकालीयस्य महात्मनः तथैव नागपत्न्यस्ता आगदा भयविह्वलाः न त्वा चन्द्रयगोलोकपदये नमः असङ्ख्याडाधिपदे परिपूर्णतमायते श्रीराधापदये तुभ्यं व्रजाधीशायते नमः नमः श्रीनन्दपुत्राय यशोदानन्दनायते पाहि पाहि परदेवपन्नगं त्वत्परं न शरणं जगत्रये त्वम् पादात्पर पतरो हरिस्वयम् लीलया किल तनोषिविग्रहम् श्रीनारद उवाच नागपत्नीस्तुतकृष्णकालियम् विगदस्मयम् विससर्जहरिसाक्षात् परिपूर्णतमस्वयम् पाहीतिप्रवदन्तम् तम् कालीयम् भगवान् हरिः प्रणदम् सम्मुखे प्राप्तम् प्राहदेवो जनार्दनः श्रीभगवानुवाच द्वीपं रमणकम् गच्छ सकलत्र सुहृद्वृतः सुपर्णोऽद्यतना त्वाम् वैनाद्यान्मत्पादलाञ्छिदम् श्रीनारद उवाच सर्पकृष्णम् तु सम्पूज्य परिक्रम्य प्रणम्यदम् फलत्रपुत्रसहितोद्वीपं रमणकं ययौ अध श्रुत्वा पालीयेन सङ्ग्रस्तं नन्दनं दनं तत्रा जग्मुर्गोपगणा नन्दाद्या सकला जनाः जलाद्विनिर्गतं कृष्णं दृष्ट्वा मोमुद्विरे जनाः आश्लिष्य स्वसुदं नन्दः परां मुदमवापः सुदं लब्ध्वा यशोदासुधकल्याणभेदवे ददौ दानं द्विजादिभ्य स्नेहस्नुतपयोधरा तत्रैव शयनं चक्रुर्गोपा सर्वे परिश्रमाद कालिन्दीनिकटे राजन् गोपी गो वेणुसङ्कर्षणोद्भूतो दावाग्निप्रलयाग्निवद निषिद्धे सर्वतो गोपान् दग्धुमागतवान् स्फुरन् गोपावयस्या श्रीकृष्णं सबलं चरणं गदाः नत्वा कृताञ्जलिं कृत्वा तमोजुर्भयपातराः गोपावूजुः कृष्णकृष्णमहाबाहोचरणागतवत्सरा पाहि पाहि वने कष्टा दावाग्ने स्वजनान् प्रभो श्री नारद उवाच स्वलोचनानि माभैष्ठन्यमीलयद माधवः युत्युक्तुवा वह्निमपि बो योगेश्वरेश्वरः प्रादर्गोपगणैः सार्धं विस्मितैर्नन्दनं धनैः गोघणसहितश्रीमद्व्रजमण्डलमायययौ इति श्रीगर्गसंहितायां वृन्दावनखण्डे दमनं दावाग्निपानम् नाम द्वादशोऽध्यायः ओम् अध्यायम् तर्टीन् शेषोपाख्यानवर्णनम् वैदेह उवाच यद्रजो दुर्लभं लोके योगिनां बहुजन्मभिः तत्पादाब्जं हरे साक्षाद् बभौ कालीयमूर्धस्सु कोयं पूर्वं कुशलकृत्कालीयो भणिनां वरः येनं वेदितुमिच्छामि ब्रूहि देवर्षि सप्तमा नारद उवाच स्वयम्भुवान्दरे पूर्वं नाम्ना वेदशिरा मुनिः विन्ध्याचले तपो तदाश्रमे तपः कर्तुम् प्राप्तोशिरा मुनिः तं वीक्ष्य रक्तनयनप्राग वेदशिरा ऋषा वेदशिरा उवाजा ममाश्रमे तपो विप्रमाकुर्या सुखदं नहि अन्यत्र ते तपो योग्या भूमिर्नाष्टि तपोधन श्रीनारद उवाच श्रुत्वाधवेदशिरसौवाक्यं ह्यश्वशिरा मुनिः क्रोधयुक्तो रक्तनेत्रप्राहतं मुनिपुङ्गवम् अश्वशिरा उवाच महा विष्णोरियं भूमिर्नदे मे मुनिसत्तम कदिर्भिर्कदिभिर्मुनिभिश्चात्र न कृतम् तप उत्तमम् स्वसंसर्प इव भो हृथा क्रोधं करोषि हि तदा सर्पो भव त्वम् हि गरुडाद्वयं वेदशिरा उवाच त्वमहादुरभिप्रायो लघुद्रोहे महोद्यमः कार्यार्थिकाम इव कौ त्वं काको भव दुर्मदे आविरासि तदो विष्णुरिद्धं च शपदोस्तयोः स्वस्वशापदुःखितयो सान्त्वयामसतौ गिरा श्रीभगवानुवाच युवां तु मे समौ भक्तौ भुजा विवदनौ मुनि स्ववाक्यं तु मृषा कर्तुं समर्थोऽहं मुनीश्वरौ भक्तवाक्यं मृषा कर्तुं नेच्छामि शपतो मम ते मूर्ध्नि हे वेदशिरचरणौ मे भविष्यतः तदा ते गरुडाद्भीतिर्न भविष्यति कर्हि शृणुमेश्वशिरो वाक्यं शोचं मा कुरु मा कुरु काकरूपेऽपि सुज्ञानं ते भविष्यदि निश्चितम् परं त्रैकालिकं ज्ञानं संयुधं योगसिद्धिभिः श्रीनारद उवाच इत्युक्त्वा भगदे विष्णौ मुनिरश्वशिरा नृप साक्षात् काक भूषण्डो भूद्योगीन्द्रो नीलपर्वते रामभक्तो महातेजा सर्वशास्त्रार्थदीपिकः रामायणं जगव्यो वै गरुडाय महात्मने चाक्षुषे ह्यन्तरे प्राप्य दक्ष प्राचेतसो नृप कश्यपाय ददौ कन्या एकादशमनोहराः तासां कद्रुश्च या श्रेष्ठा साद्यैव रोहिणी स्मृदा वसुदेवप्रिया यस्यां बलदेवो भवत्सुधः सा कर्द्रुश्च महासर्पान् जनयामासोडिशः महोद्भटान् विषबलानुग्रान् पञ्चशदाननान् महाभणिधरान् कांश्चिद्दुस् हांश्च सदाननान् तेषां वेदशिरानाम पालीयो भून् महाफणी तेषामादौ फणीन्द्रो भूचेषो नन्दःपरात् परः सोऽध्यैव बलदेवोऽस्ति रामो नन्दोच्युदाग्रजः ये कदा श्रीहरिस्साक्षाद्भगवान् प्रकृतेः परः शेषं प्राह प्रसन्नात्मा मे गम्भीरया गिरा श्रीभगवानुवाच भूमण्डलं समाधातुं सामर्थ्यं कस्य चिह्नहि तस्मादेन महीगोलं मूर्ध्नि तं हि समुद्धर अनन्दविक्रमस्त्वं वै यदोन्नन्द यदो नन्दयिति स्मृतः इदम् कार्यम् प्रकर्तव्यम् जनकल्याणहेतवे शेष उवाच अवधिम् गुरुयावत्वं यावत् धरोद्धारस्य मे प्रभो भूधारम् धारयिष्यामि तावत्ते वचनादिह श्रीभगवानुवाच नित्यं सहस्रवदनैरुच्चारं च पृथक् प्रधक पृथक् मद्गुणस्फुरदाम् नाम्नां कुरु मन्नामानि च दिव्यानि यदा यान्द्यवसानतां तदा भूभारमुत्तार्य भणित्वं सुसुखी भव शेष उवाच आधारोऽहं भविष्यामि मदाधाराश्च कोपवेद निराधारकसन्तोये तिष्ठामि कथय प्रभो श्रीभगवानुवाच अखं च कमठो भूत्वा धारयिष्यामि ते तनुम् महाभारमयीं दीर्घम् मा शोचं कुमत्सखे श्रीनारद उवाच तदा शेषसमुद्धाय नत्वा श्रीगरुडध्वजं जगामनृम नृ जगामनृपपादाला दधो वै लक्षयोजनम् गृहीत्वा स्वकरेणेदम् गरिष्ठम् भूमिमण्डलम् दधारस्वफणे शेषोऽप्येकस्मिंश्चण्डविक्रमः सङ्घर्षणेथ पादाले गदे नन्दपरात्परे अन्ये फणीन्द्रास्तमनु विविशु ब्रह्मणो दिदाह अदले विदले केजिसुदले जमहादले कलातले तथा केजिस्सम्प्राप्तास्ते रसातले तेभ्यस्तु ब्रह्मणा दत्तं द्वीपं रमणकं भुवि कालीयप्रमुखास्तस्मिन् अवसन् सुखसंवृद्धाः इति ते कथितं राजन् कालीयस्य कथानकम् बुक्दिदं मुक्दिदं सारं किं भूय्य श्रोतुमिच्छसि इति श्रीगर्गसंहितायां वृन्दावनखण्डे शेषोपाख्यानवर्णनं नाम त्रयो दशोऽध्यायः ओम् 14 फोर्टीन् वैदेह उवाच वाचा द्वीपे रमणगे ब्रह्मन् सर्पान् अन्यान्विना कथम् यदन्मे ब्रूहि सकलं कालि यस्या भवद्भयम् श्रीनारद उवाच तत्र नागान्तको नित्यम् कदक्षोभं जखानः कदक्षोभम् चैकदादे तार्क्ष्यम् प्राहोर्भयातुराः नागाऊजुः हे गरुत्मन्नमस्तुभ्यं त्वं साक्षाद्विष्णुवाहनः अस्मानसि यदा सर्पान् कथं नो जीवनं भवेद् तस्माद् बलिं गृहाणाशु मासे मासे गृहात् पृथक् वनस्पतिसुधान्नानाम् उपचारैर्विधानदः गरुड उवाच एकसर्पस्तु मे देयो भवद्भिर्वा गृहात्पृथक कथं पचामि तमृदे बलिं वीडगवत्परं श्रीनारद उवाच तथास्तु चोक्तास्ते सर्वे गरुडाय महात्मने गोपीधायात्मजो राजन्नित्यं दिव्यं बलिं ददुः कालीयस्य गृहस्यापि समयो भुज्यधा नृप तदा तार्क्ष्यबलिं सर्वं भुभुजे कालियो बलाद तदा गधप्रभुपिदो वे गधकालियोपरि चकारपादविक्षेपम् गरुडश्चण्डविक्रमः गरुडाङ्घ्रिप्रहारेण कालियो मूर्चिदो भवद पुनरुद्धाय जिह्वाभिप्रावलीढन् मुखं श्वसन् प्रसार्य स्वं फणशदं कालिह्यफणिनां वरः व्यदशद्गरुडं वेगा दद्भिर्विषमयैर्बलीं गृहीत्वा तं च तुण्डनगरुडो दिव्यवाहनः भूपृष्ठे प्रोधयामासपक्षाभ्याम् ताडयन्मुः तुण्डाद्विनिर्गतः सर्प तत्पक्षान्विचकर्षः तत्पादौ व्यष्टयम् स्तुभ्यन् भूत्कारम् व्यदधन्मुः तेषाम् तु दर्शनम् पुण्यम् सर्वकामफलप्रदम् शुक्लपक्षे मैथिलेन्द्र दशम्यामाश्विनस्य तद कुपितो गरुडस्थं वै नीत्वा तुण्डेन कालीयम् निपात्य भूम्यां सहसा तत्तनुं विचकर्षः तदा दुद्रावतत्तुण्डात् कालीयो भयविह्वलः तमन्वधावत्सहसा पक्षिराच्चण्डविक्रमः सप्तद्वीपान् सप्तखण्डान् सप्तसिन्धूंस्तदः फणी यत्र यत्र गदस्तार्क्ष्यं तत्र तत्र ददर्शः भूर्लोकं च भुवर्लोकं स्वर्लोकं प्रगदः फणी महर्लोकं तदो धावञ्जनलोकं जगामः गरुडे प्राप्ते धोधो लोकमगृस भयात्के रक्षा तर न संदु कु न सुखे जादे कालियो जगाम देव चरणा दिखे न नत्वा प्रणम्य तम शेषं पिकक्रम्यंजलि दीनोभयादुरप्राह दीर्घपृष्ठप्रकम्पितः काल्य उवाच हे भूमि भरुतर्भुवनेशभूमन् भूभारकृत्वम् ह्यसि भूरिलीलः मां पाहि बाहिप्रभविष्णुपूर्णः परात् परस्त्वम् पुरुषपुराणः श्रीनारद उवाच दीनंभयादुरं दृष्ट्वा पालीयं श्रीफणीश्वरः वाचा मधुरया प्रीणन् प्राह देवो जनार्दनः शेष उवाच हे पालीयमहाबुद्धे शृणो मे परमम्बजः कुत्रापि न हि ते रक्ष भविष्यदि न संशयः वृन्तारण्ये तपस्तप्तो वर्षाणामयुतम् जले मीनराजविहारं यो वीक्ष्य गेहस्पृहो भवद स उवाहमः बुद्धिः मान्धा दुस्तनुजाशदम् तस्मै ददौहरि साक्षात् परां भागवतीम् श्रियम् वीक्ष्यताम् नृपम् मान्धादा विस्मितो भूद्गदस्मयः यमुनान्तर्जले दीर्घं सौभरेस्तपतस्तपः पश्यतस्तस्य गरुडो मीनराजं जखानः मीनान् सुदुःखितान् दृष्ट्वा दुःसफा दीनवत्सलः तस्मिन् शा पौ ददौ क्रुद्धौ सौभरिर्मुनिसप्तमः सौभरिरुवाच मीनानद्यतनाद् अत्र यस्य त्वं बलाद्विराड तदैवर्पण तदैवर्पाणनाशस्ते भूयान्मे शापतस्त्वरं शेष उवाच तद्दिना तत्र नायादिगरुडशापविह्वलः तस्मात् काल्य गच्छाशो वृन्दारण्ये हरेर्वने कालिन्द्यां च निजं वासं कुरु मद्वाक्यनोदिदः निर्भयस्ते भयं तार्क्ष्यां न भविष्यति कर्षचिद श्रीनारद उवाच इत्युक्तकालियोभिधसकलत्र सपुत्रकः का। कालिन्द्याम् वास हृद्राजन् श्रीकृष्णेन विवासितः इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे कालियोपाख्यानवर्णनं नाम चतुर्दशोऽध्यायः ओम्